शकुनिरुवाच अयम् मया पाण्डवानाम् धनुर्धरः पराजितः पाण्डवः सव्यसाची भीमेन राजम् दयितेन दीव्य यत्कैतवम् पाण्डवतेऽवशिष्टम् युधिष्ठिर उवाच यो नो नेता युधिनः प्रणेता यथावज्रीदानवशत्रुरेकः तिर्यक प्रेक्षी तिर्यक्प्रेक्षी सन्नतभ्रूर्महात्मा सिंहस्कन्धो यश्च सदात्यमर्षी बलेन तुल्यो यस्य पुमान्न विद्यते गदाभृतामग्र्य इहारिमर्दनः अनरहता राजपुत्रेण तेन दीव्याम्यहम् भीमसेनेन राजन् वैशंपायन उवाच एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः जितमित्येव शकुनिर्युधिष्ठिरमभाषत शकुनिरुवाच बहुवित्तं पराजैषीर्भ्रातॄंश्च सह सहयद्विपान आचक्ष्ववित्तं कौन्तेय यदि तेऽस्त्यपराजितम्